िंशः सर्गः तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः सेनापतिमभीप्सन्तः पितामहमुपागमन् ततो ब्रुवन्सुराः सर्वे भगवन्तम् पितामहम् प्रणिपत्य सुरारामसेन्द्राः साग्निपुरोगमाः येन सेनापतिर्देव दत्तो भगवता स तपः परमास्थाय तप्यते स्म स होमया यदत्रानन्तरम् कार्यम् लोकानाम् हितकाम्यया संविधत्स्व विधानज्ञत्वम् हिनः परमागतिः देवतानाम् वचश्रुत्वा सर्वलोकपितामहः सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् शैलपुत्र्या यदुक्तम् तन्न प्रजाश्वासु पत्निषु तस्या वचनमक्लिष्टम् सत्यमेव न संशयः नियमाकाशगङ्गा च यस्याम् पुत्रम् हुताशनः जनयिष्यति देवानाम् सेनापतिमरिन्दमम् ज्येष्ठा शैलेन्द्रदुहितामानयिष्यति भविष्यति न संशयः तच्छ्रुत्वा वचनम् तस्य कृतार्था रघुनन्दना प्रणिपत्यसुराः सर्वे पितामहमपूजयन् ते गत्वा परमम् रामकैलासम् धातुमण्डितम् अग्निम् नियोजयामासुः पुत्रार्थम् सर्वदेवता देवकार्यमिदम् देवसमाधत्स्वहुताशना शैलपुत्र्याम् महातेजो गङ्गायाम् तेज उत्सृजा देवतानाम् प्रतिज्ञाय गङ्गामभ्येत्यपावकः गर्भम् धारय वै देवि देवतानामिदम् प्रियम् इत्येतद्वचनम् श्रुत्वा दिव्यम् रूपमधारयत् स तस्यामहिमाम् दृष्ट्वा समन्तादवशीर्यता समन्ततस्तदा देवीमभ्यषिञ्चत पावकः सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दना तमुवाच सर्वदेवपुरोगमम् अशक्ताधारणे देव तेजस्तवसमुद्धतम् दह्यमानाग्निनाथेन सम्प्रव्यथितचेतना अथाब्रवीदिदम् गङ्गाम् सर्वदेवहुताशनः इह हैमव ते पार्श्वे गर्भोऽयम् सन्निवेश्यता श्रुत्वा त्वग्निवचो गङ्गा तम् गर्भमतिभास्वरम् उत्ससर्जमहा तेजः स्रोतोभ्यो यदस्यानिर्गतम् तस्मात्तप्तजाम्बूनदप्रभम् काञ्चनम् धरणीम् प्राप्तम् हिरण्यमतुलप्रभम् ताम्रम् कार्ष्णाय सम् चैव तैक्ष्ण्यादेवाभिजायत मरम् तस्याभवत्तत्रपुसीसकमेव च तदेतद्धरणीम् प्राप्य नानाधातुरवर्धत निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् सर्वं पर्वतसन्नद्धम् सौवर्णमभवद्वनम् जातरूपमिति ख्यातम् तदा प्रभृतिराघवा सुवर्णम् पुरुषव्याघ्रहुताशनसमप्रभम् तृणवृक्षलता गुल्मम् सर्वम् भवति काञ्चनम् तम् कुमारम् ततो सहमरुद्गणाः क्षीरसम्भावनार्थाय कृत्तिकाः ताः क्षीरम् जातमात्रस्य कृत्वा समयमुत्तमम् ददुः पुत्रोऽयमस्माकम् सर्वासामिति निश्चिताः ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् पुत्रस्त्रैलोक्य विख्यातो भविष्यति न संशयः तेषाम् तद्वचनम् श्रुत्वा स्कन्नम् गर्भपरिस्रवे स्नापयन्परया लक्ष्म्या दीप्यमानम् यथानलम् स्कन्द इत्यब्रुवन्देव स्कन्नं गर्भपरिस्रवे कार्त्तिकेयम् महाबाहुम् काकुत्स्थज्वलनोपमम् प्रादुर्भूतम् ततः क्षीरम् कर्त्तिकानामनुत्तमम् षण्णाम् षडान नो भूत्वा जग्राहस्तनजम् पयः गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा अजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः सुरसेनागणपतिमभ्यषिञ्चन् महाद्युतिम् सर्वे समेत्याग्निपुरोगमाः एष ते रामगङ्गाया विस्तरोभिहितो मया कुमारसम्भवश्चैव धन्यः भक्तश्च यः कार्तिके ये काकुत्स्थभुवि मानवः आयुष्मान्पुत्रपौत्रैश्च स्कन्दसालोक्यताम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशत्